ॐ नमो भगवते वासुदेवाय अथ कपिजन्मनी कपिजन्मनि विमानागमनं नाम अष्टाविंशोऽध्यायः श्रीनारायण उवाच तन्निशम्यभटा नाह चित्रगुप्तश्चिरं हृशं पूर्वं लोभाभिभूतोऽयं पश्चाच्चौर्यमचीकरत् अतः प्रेतत्वमासाद्य पश्चाद्भवतु वा नतश्चाहं प्रदास्यामि बह्वीं नरकयातनाम् अयमेव क्रमः श्रेयान् धर्मः इत्येवं चित्रगुप्तेन समादिष्टा विभीषणाः तथा चक्रुर्भटाः शीघ्रं ताडयन्तश्च तं द्विजं प्रेतत्वं प्रापितः पूर्वम् कानने विफले द्विजः निर्जले बहुकालं च प्रेतयोनिमवाप्यसः छुत्रिभ्यां व्याकुलोऽत्यन्तं बभ्रामगहनि वने प्रेतयो निगतं दुःखम् अनुभूय ततः परं फलचौर्यमसफलचौर्यसमुद्भूतां दिव्ये कालञ्जरे शैले जम्बूखण्डमनोहरे ीतलजलच्छाय फलपुष्पसमन्विते तत्रासीद् सुराणामपि दुर्लभम् यस्मिन् कृतेन श्राद्धेन पितरो यान्ति सद्गतिं तत्र दैत्यभयाद् देव मृगा भूत्वा निरन्तरम् तत्रायं प्रथमं जन्म कापेयं द्विजः फलचौर्यकृतात् पापाद् आसाद्य मानुषीं तनुं नारद उवाच त्रैलोक्यपावने रम्ये मृगतीर्थे कथं कपिः दुष्टः पापकोटिसमन्वितः छिन्धि मे संशयं नाथ तपोधनमनोगतं भवादृशां न गोप्यं हि स्वशिष्येषु कदाचन एवं संचोदिताभिप्रा नारदेन तपोनिधिः उवाच परमप्रेतः सत्कुर्वन्नारदं मुनिम् श्रीनारायण उवाच कश्चिदवैश्यो महानासीन्नाम्ना वैचित्रकुण्डलः तत्पत्नीतारकाम्नी पातिव्रत्यपरायणम् ताबुभौ चक्रतुर्भक्त्या पुण्यं श्रीपुरुषोत्तमं तयोः कृतवतोर्मासु गतः श्रीपुरुषोत्तमः निकरोत् सपत्नीको मुदा युक्तः श्रद्धया चित्रकुण्डलकारं कर्तुं सपत्नीकान् गुणान् वितान् कदर्यप्यागमत्तत्र धनलोभेन नारद उद्यापनविधौ पूर्णे सञ्जाते चित्रकुण्डलः अत्युग्रदानैस्तान् विप्रान् सपत्नीकान् अतोषयत् तुष्टेषु तेषु सर्वेषु दक्षिणात् तद्दत्त भूयसि तुष्टाम् अन्ये विप्राग्रहान् ययुः अतिलुब्धः कदरि यस्तु रुदंस्तस्थौ तदग्रतः विनयावनतो भूत्वा स चित्रकुण्डलवैश्येषु पुरुषोत्तमव्रतं सम्यक् भवता विधिना कृतं न तथा च कृतं केन कुत्रापि पृथिवीतली भवानद्य कृतार्थोऽस्ति भाग्यवानस्ति तत्वया परया भक्त्या सेवितः पुरुषोत्तमः धन्यस्तव्या माता पादितः पुत्रस्त्वा श्रीपुरुषोत्तमः यत्सेवनादवाप्नोति ह्यैकामुष्मिकं फलम् दृष्ट्वा हि तावकीं पूजां चकितोऽहं विशां पते अहो त्वया महत्कर्म कृतमेतन्न संशयः अन्येभ्यो ब्राह्मणेभ्यश्च धनं दत्तं बृहन्मुदासि कथं तस्मै धनमदादसौ तद् गृहीत्वा करोद् विप्रो धनं तत्रानेन महापूजा दृष्ट्वा श्रीपौरुषोत्तमी पुरुषोत्तममासश्च धनुलोभेन संस्तुतः हात्म्यात् पुरुषोत्तमस्तवात् पुरुषोत्तमसंभकृतादपि दुष्टशाखामृगस्यापि जातं सत्तीर्थसेवनं किं पुनः श्रद्धया कर्तुर्दर्शनस्तवने मुनि पुरुषोत्तमदेवस्य सपत्नीकस्य सादरम् नारद उवाच सुशीतलजले ब्रह्मन्निग्धच्छाये मनोहरे सद्वृक्षमण्डितेरण्ये तत्स्थितेः कारणं वद श्रीनारायण उवाच शृणु नारदवक्ष्यामि तुभ्यं शुश्रूषवे नत्रास्ति कारणं किञ्चित् श्रमणात् पापनाशनम् यदा दाशरथी रामः सर्वार्थफलदायकः हतवान् रावणं दुष्टं बद्ध्वा सेतुं महो दधौ विभीषणाद् राक्षसा नावसेषिताः विशुद्धासा, जानकी विशुद्धा सा जानकी स्वीकृताधुना चतुर्मुखमहेशान पुरन्दरपुरस्सरैः दशवक्त्रवधप्रीतैर्हे राम त्वम्बरं वृणु इत्युक्ते विवदद रामौ भक्तानामभयङ्करः सुराशृणुतमद्वाक्यं यदि देयोवरोधुना अत्र एवानराः शूरारक्षोभिर्निहताश्च सुधावृष्ट्या ममाज्ञयाम् ृष्ट्या समजीवयन् चतुर्मुखमहे ततः सञ्जीविताः सर्वेशालिनः रामभद्रे चिरं सुप्तोत्थिता इव अथ पुष्पकमारुह्य वानरान् सर्वतस्थितान् अजीगदत् सपत्नीकः श्रीराम उवाच हे सुग्रीव हनुमन्तौ हे तारात्मजजां जा भवन् मित्रकार्यं कृतं सर्वं भवद्भिः सह वानरैः आज्ञापयन्तु तान् भवन्तु वानरानितः भवदाज्ञापिताः सर्वे यथेष्टं यान्तु ते यत्र यत्र वने एते मामका मामकादीर्घजीविनः वसन्ति वानरास्तत्र वृक्षाः पुष्पफलान्विताः नद्यो मृष्टलतावाथ शीतलं सुभगं सरः न केऽपि दर्शयिष्यन्ति सर्वे यान्तु ममाज्ञया अतो रामप्रभावेण यतो वानरजातयः तत्र नद्यो मृष्टजलाः सरश्च सुभगं वने लसत्फलामहावृक्षाः पुष्पपल्लवसंयुताः परन्तु सुखदुःखानि प्राक्तनादृष्टजानि च यत्र यत्र वसेजन्तुस्तत्र तत्रोपयान्ति नाभुक्तं क्षीयते कर्म इति वेदानुशासनम् अथासौ वानरस्तत्र ववृधे पर्वतोपमः बृहच्चुत्रित्समायुक्तो लोलुपो व्यजरस्तस्य पीडा पीडापित्तसमुद्भवाम् यया सृच्यवते वक्त्रश्च दिवानिशम् अत्यन्तवेदनाविष्टो अत्यन्तवेदनाविष्टोन्नात्तुं शक्स्तु किञ्चन स च वानरचापल्याद् द्रुमेभ्यः सत्फलानि च लुनीयवदनाभ्यासे नीत्वा तत्याजभूरिशः नैकत्र पीडया स्थातुं शक्तोऽसौ वानरः क्वचित् वृक्षाद्वृक्षान्तरं गच्छन् मेने मृत्युं सुखावहम् कदाचिदपदद्भूमौ विललापाति दुःखितः अरुरुदभग्नगात्रो नीरभ्रष्टो यथा झषः असौ क्षुत्रित्समाविष्टः श्लथद्देहो गलन्मुखः पेतुर्दन्तास्तथा सर्वे व्रणरोगेण पीडिताः पूर्वजन्म कृतात् पापात् एवं दुःखमजिः गमत् प्रवर्तमानस्य निराहारस्य नित्यशः दैवयोगात् समागच्छन् मासः श्रीपुरुषोत्तमः तस्मिन्नपि तथैवास्ते शीतवातादिपीडितः शक्नोत्पातुमम्बुकम् क्षुधाविष्टोऽपि चापल्यात् तत्रोच्चैर्वृक्षमारुहत् वृक्षाद्वृक्षान्तरं गच्छन् मध्ये कुण्डमपि पतत् सचिराय निराहार शिथिलेन्द्रियजर्जर शिथिलप्राणप्रान्तमुपाश्रितः एवं दिनानि चत्वारि दशमे दिनतः कपेः गतानि लुण्ठतकुण्डे मासे श्रीपुरुषोत्तमे पञ्चमे दिवसे प्राप्ते मध्यं दिनगतिरवौ व्यसुः पपातत्तीर्थे वपुः कपिः सतं देहं समुत्सृज्यो दिव्यवपुः प्रापो दिव्याभरणभूषितम् इन्दीवरदलश्यामं कोटिकन्दर्प सुन्दरं स्फुरद्रत्नकिरीटं च सुचारु झषकुण्डलं लसत्पीतपटं पुण्यम् सदरत्नकटिमेखलं ीघ्रं विमानं वैष्णवाश्रितं भेरिमृद वेणुवीणा बृहत्स्वनं नृत्यदेवाङ्गनं दिव्यं गायद् गन्धर्वकिन्नरम् तन्निरीक्षमहाभागो दिव्यदेहधरः कविः विस्मयं परमं यातु महापापस्य योग्यं वैमानिकं सुखं। अथ काचित्तदुपरि दधारच्छत्रमिन्दुभं चक्रतुश्चामरे काश्चित्ताम्बूलहस्ताश्च काश्चित् न नृतुश्चाप्सराः काचिद्भृङ्गारकं हैमं स्वर्धुनिवारिसंहृतं हस्ते कृत्वा पुरस्तौ गीतवाद्यादितत्परम् एवं वैभवमालोक्य चित्रन्यस्त इवाभवत् किमेतत्केन पुण्येन ममा पुण्यस्य दुर्मतेः नास्ति मे सुकृतं किञ्चित् येन यामि हरे पदम् श्रीनारायण उवाच इत्थं तर्कयतु बृहत्सुखनिधिं दिव्यं विमानं पुरु दृष्ट्वा विस्मितचेतसो हरिभटौ ज्ञात्वा स्यहार्दं परं बद्ध्वाग्रे करसम्पुटं सविनयं नत्वा तदीयं पदम् वाक्यं सुन्दरमूचतुः कपिजनुत्यक्त्वा पुरः संसितम् इति श्रीबृहन्नारदीयपुराणि पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादि कदर्यूपाख्यानि कपि जन्मनि विमानागमनं नामाष्टाविंशोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु